धारयन्ते सा नो भव्यस्य भक्त्यलम् लोकम् पृथिवेन कृणोतु असंवादम् बध्यतो मा नवाना यस्याः उद्गतः प्रवतः समम् बहु नानावेर्यावोषधेर्या विभक्त्य पृथिवेन यस्याम् समुद्र उतसिन्धुरापो यस्यामन्नम् दृष्टयः सम्बभो वः यस्यामिदञ्जिन्व्याधिप्राणदेधत्सा नो भो मिह्तु यस्याश्च दशः प्रतिशप् पृथिव्या यस्यामन्नम् दृष्टयः सम्बभो वः याविभर्ति बहुधा प्राणदेधत्सा नो भो यस्याम् पूर्वे पूर्वजनावेचकृते यस्याम् देवासोरानभ्यवर्तयन् यो वामश्वानाम् वयतश्च मिष्ठामगम् वर्चः पृथिवीनो दुधातु विश्वम्भराव सुधानेः प्रतिष्ठायरण्यवक्षादगतो निवेशानि वये सा नरम् विभ्रे भोमे रग्निमिन्द्रदशभाद्रमेणेनो दधातु राम् वृक्षम् यः स्वप्नाविश्वदानीम् देवा भोमिम् पृथिवीमप्रमादम् सा नामथप्रियम् दोहामथो मोक्षतमच सा यार्णवेधेऽधनिलमग्रासेद्याम् मायाभेरन्व च बह्मनेशिनाः यस्याहृदायम् परमेऽज्ञामन् सत्येनामृतममृतम् पृथिव्याः सानो भोमिस्ति शिम्बलम् राष्ट्रे दधातोत्तमे यस्या मापरिचाराः स मानिरहोरात्रे अप्रमादम् शलन्ति सा नो वक्षतवर्चसा रामश्विनाम मे माताम् व्यष्टव्यस्यारम् आत्मने न मित्राम् च जेपतेः सा न भोमिर्विसजताम् माता पुत्राय मेपयः बभ्रम् कृष्टाम् रोहिणीम् विश्वरूपाम् ध्रुवाम् भूमिम् पृथिवीमिन्द्रगुप्ताम् अशीतो हदक्षतोध्यष्टाम् पृथिवेमहम् यत्रे मध्यम् पृथिवीच्चभ्ययास्तवोजस्तम्बः स्तम्बभूवुः काशो नोधेश्चपिनः पवस्वमाता भूमिः पुत्र अहम् पृथिव्याः पर्जन्यः पितासवो न प्यपर्तो यस्याम् वेदिम् परिगृह्णन्ति भोम् ध्याय्यस्याः यज्ञम् तन्वते विश्वगाहर्माणः यस्याम् मीयन्तेश्वरवपृथिव्यामोद्भाः शुक्रा आहुत्या पुरस्तात् सा नो भूमिर्वर्धयद्वर्धमाना यो नाद्वेषत् पृथिवीयप्रतन्या कर्णा भोमेरन्भयपूर्वकृति त्वज्जातास्त्वये कर चलम् जिमत्यास्त्वम् वेभर्षद्विपदस्त्वम् तवेमे तवे मे प्रेषविमञ्जमानवा येभ्यो ज्योतिरमृतम् मत्येभ्यमुद्य सूर्यरश्मिभेनातनोति प्राणः प्रजाः विश्वस्वम् मातरमोषाधीनाम् ध्रुवाम् भूमिम् धृम् धर्माणाधृताम् शिवाम् शिवानामनोजले मम विश्वः महत्सधस्थम् महदेवा भूमि च महान् वेग ये च सर्वेऽपतुष्टे महांस्तेन्द्र रक्षत्यप्रमादम् भूमे पुराजय हिरण्यस्यैव सन्दृशिमानोऽपिक्षता कश्चन अग्निर्भूम्यामोषाधेष्वग्निमो बिभत्यग्निरश्मासु अग्निरमितः पुरोषे शिभोश्वेष्वग्नयाः अग्निर्दिवादभक्त्यज्ञस्योर्वा अग्निर आन्तरिक्षम् अग्निम् मत्तास इन्धते हव्यप्रियम् अग्निवासा पृथिव्यासिदग्नोऽस्तु शेवन्तम् संशेतम् मा कृणोतु भौम्याम् देवेभ्या ददते अज्ञम् णो भूमिः प्राणमायुर्दथा तु जलदष्ठिम् मा पृथिवी क्रीणोतु यश्चे गन्धपृथिबीशम् बभो वयम् बिभ्रत्योषाधयोऽयमापाः यम् गन्धर्वाप्सरदश्च भे चेते न मा तु क्रीणुमानोऽप्रेक्षता अमत्या पृथिविगन्धमग्रे तेन मासुलाभिङ्गमानाध्यक्षत कश्चन यश्चे गन्धः पुरुषेषु स्त्रेषु पुंसु भगो रुचेः सोऽश्वेषु वेदेषु यो मृगेषु उत हस्तिषु कन्यायाम् वर्चो यद्धो मे शिषा भूमिरश्मा पांसुः सा भूमिः सन्धृताधृता तस्येहिरण्यवक्षस पृथिव्याकरम् नमः यस्याम् वृक्षावानस्पत्या ध्रुवास्तिष्ठन्ति विश्वः पृथिवेम् विश्वधाय सन्धृता मच्छा वदामसे उदीराणा प्रभ्याम् दक्षिणसव्याभ्यामा व्याधिस्म हि भूम्याम् विमग्रेम् वृषिरेमा वदामि क्षमाम् भूमिम् ब्रह्माणा वा वृथानाम् ओर्जम् वृष्टम् बिभ्रदे मन्नभागम् घृतम् पाभिषेदे भूमे शुद्धानावस्थन्दे अक्षरम् द्वयोनस्य दुरप्रे हेतुर्निदध्मः पवित्रेन पृथिनिमोत्पो नामे यास्ते प्राजे प्रतिशो या उदेशे भूमे धराद्याश्च पश्चाद् शोणाश्चामह्यम् जराद भवन्तु मा निपक्तम् भुवनधि श्रियाणः मान पश्चान्मा पुरस्तान्नुतिष्ठामोत्पराद धरादुत स्वस्ति भो मे नोऽभवमावेलन्वरे पन्थिना वरेयो यावयावधम् रावत्तेऽभि विपश्यामि भो मे सूर्येण मेदिना पावन्मे चक्षुर्म मे स्तोत्तरामुत्तरां समा यच्छया न पर्यावर्ते ताप्रदेशे यत्पृष्ठेधेरधिशे माहे मारन्सेस्तत्र नो भौमे सर्वस्य प्रदेशीवदे यत्ते भौमे विधनामिक्षिप्रम् तदपे रोहतु माते मर्म विभग्वति माते हृदायमर्पिकम् ग्रीष्मस्ते कृष्मस्ते भूमे धरद्धे पन्तः शिशेरोपसन्तः प्रतमश्च विहेदाय नीरो रात्रे पृथिवीनो दुहाता यापसर्कम् विजमाना विमृग् रेयस्यामासन्नग्नयो ये अक्स्वा आन्तः परादस्यो देवपियो देव पेयोनिन्द्रम् वृणाना पृथिवेन वृत्रम् शर्क्राया दध्य यस्याम् तदोह व्यर्धाने योपा यस्याम् निमीयते ब्रह्माणो यस्यामर्त्यम् द्रग्भ्यः साम्नायजुर्विदाः युज्यन्ते यस्यामृत्विजः स्वममिन्द्राय पाचवे यस्याम् पूर्वे भूतकृतर्षयोगा उदा रचोः मेधसो यज्ञेन तपसासः सानोभो नो भोभिरादेशत्रयद्धनम् कामयामहे भुवानप्रयुम् कामिन्द्रयेतुपुरोगवः यस्याम् गायम् तस्यांगायं विभोम्याम् मर्ध्याव्यैरवाः युध्यन्ते यस्यामा स्क्रन्दा यस्याम् मदादितुन्दुभिः सा नो भो म्यप्रणोद यस्यामन्नम् रेः यवो यस्या इमाः पञ्चादृष्ट्याः भौम्ये वर्गन्यापत्नी नमास्त्वर्षमे दशे यस्याः पुरा देवगृहताक्षेत्रे यस्याविकुर्वते प्रजावादिकृशवेन् विश्वगर्भामाशामाशाम् रण्यान्न शृणोतु ेव हुधा गुहा वसो मणिम् हिरण्यम् पृथिवे ददातु मे वसो युनो वसुतारासमाना देवी दधातु सुमनस्य माना जनम् बिभ्रदेवहुधा विवाहाजसम् नाना धन्मानम् पृथिवेयासौ वसम् सहस्रम् धारा द्रवेणस्य मे दुहाम् ध्रुवे धेनुर्णवस्फुरन्ति कश्चे सर्पो वृश्चैकस्तम् स्माहे मन्तजब्धो भ्रमलो गुहाशयेः हृमर्जन्वत्पृथिवे यद्यदेजातिप्रामृषितम् नः सर्पन्मोपाधुपद्यच्छिवम् तेन नो मृड ए पन्था नो बहवो जनायनार्थस्य वत्माना वत्मान यातवे ते सञ्चरन्त्युभये भद्रपापास्तम्बन्धा नयेमानमित्रमातस्कलम् यच्छिबन्तेन मृड मल्बम् बिभ्रते गुरुभुर्भद्रपापस्य मिथलम् चिक्षुः वराहेण शिवे संविदानासोकलाय विजेहे च मृगाय एतार्या प्रसवा मृगावने हिताः सिंहाव्याघ्राः पूरुषा पुलरम् नृकम् पृथिविदुच्छुनामितलक्षेताम् रक्षोपाबाधया स्मत् ये गन् सर्वाक्षरसो ये ताराय किमे जिनाः पिशाचान् यस्याम् मातो मातरिष्वय देवताम् जि गण्णांश्चावयम् सवृक्षान् पातस्य प्रवामोपवामनो वात्यर्चिः तस्याम् कष्टमा ऋणम् च संहेदे अहोरात्रेभिः देहोङ्ग्यामहे दे वर्षे नभो न पृथिवे मृतावृतासानो दधातु भद्रया यौश्च म इदम् प्रथमे चाम् करिक्षम् च मे व्यजाह अग्निः सौर्यापो मेधाम् निःस्वेः देवाश्च सन्दाधो अहमस्मि सहमानवुत्तरो नाम भूम्याम्भेषाडस्मि विश्वाषाणाशामाशाम् आ का शुभोतमाविशत्कदा नेमकल्पयथा प्रतिषष्ठतस्रः ये ग्रामायतरम् नैयाः सपाधिभोम्याः ये सङ्ग्रामाः समेत यस्य सचारोपदेमते अश्वायिवरजा मृधुवेवितान्यक्षेयम् वृषवे मन्त्राग्रे त्वा हे भुवानस्य गोपावनस्पते नाजधीनाम् यद्वदामि मधो मत्तद्दामि यदि क्षे तद्दानन्ति मा विषे मानग्निज्योतिमानफान्याह्नन् निरोधतः शङ्वाजोरथस्यो न केलालोऽध्नेपयस्पति भो मे रथि प्रवेतु मे कामन्वयेच्छमिषा विश्वकर्मान्तरर्णवदप्रविष्टा भुजिष्या आम् पात्रम् नेतम् गुहायजाविर्भोगे अभवन्मात्रमद्भ्याः स्वस्यापनेजना नामदेः कामदुःखापप्रधाना यत्त वोलम् दत्तापोलयादिप्रजापजप्रथमाचारतस्य स्थास्थे अनमेवा यक्ष्मास्मभ्यम् सततपुषविप्रसोदार्घन्नाय प्रतिबोध्यमाना वयम् तुभ्यम् वैहृदस्याम भूमे मातन्निधे हिमा भद्रया सुप्रातिष्ठितम् संविधानादिपाकवेश्याम् मातेः भूत्यार्तालोक इदम् शेषम् भागशेयम् ि यक्ष्म पुरोषे षि यक्ष्मस्तेनत्वम् सागमाधराङ्करे शंसाभ्याङ्करेणानुकरेण च यक्ष्मनुपन्ते नेतो मृत्युम् च निरजामसि निरितो मृत्युम् निर्वेदिम् निर्वाहादिमजामसि यो नोद्वेष्टितमध्यज्ञे अग्रव्याद्यमद्विस्मस्तमोदेशोभामसि यद्यज्ञ्या देवाव्याघ्र इमम् गोष्ठम् प्रविवेशान्योकाः तम् माशास्यम् गत्वा प्रहेणोमि दूरम् स गच्छ त्वज्ञेन यत्त्वा क्रुद्धा प्रचक्रुर्मन्युना पुरुषे मृते सुकल्पामग्नयतत्त्वया पुनःस्त्वद्येपयामसे पुनस्तादिद्या रुद्रावसावः पुनर्ब्रह्मावसो नेतिरग्ने पुनस्ताद्ब्रह्म नस्पतिराधाद्दीर्घायुक्ताय शतशारदाय यो अज्ञाप्रवेश नो गृहविमम्बः सञ्जितारम् जातवेदसम् ब्रह्म रामपितृयज्ञाय दूरम् स घर्ममिन् धाम् परमे क्रव्यादमग्निम् गृहेणोमि गच्छतु रिप्रवाह इहाय विचारो जातवेदा देवो देवेभ्यो हव्यम् वाह दुःखजानन् प्रव्यादमग्निमे शिरोहरामिजनान् ब्रह्मन्तम् वज्रेण मृत्युम् इदम् सास्मि कालः पत्येन विद्वान् ब्रव्यादमग्निम् शमानमुख्या आम् ग्रहेणोऽपि प्रतिभियाणीः माधे वयानेत्पुनरागात्रैवेदेऽपिदृशो जागृहित्वम् समिन्धरे सङ्गम् स्वस्तये शुद्धा भवन्तः शुजाय पावकाः जहातिरिक्तमत्येन यति समिद्ध अग्निः सु पुना त्वं। पुनादि देवो अग्न्यः सङ्कासुको दिवः स्पृष्ठान्यारोहत् मुच्यमानोऽलसोमागस्माशस्त्याः अस्मिन्वयम् सङ्कासुके अग्नौ युक्ताणे अभोम अभोमयज्ञया शुद्धा प्रणायोऽम् सुविदादिशत् सङ्कासुको विकासुकानिरतोयश्च निःस्वारः च यक्ष्मं समेदसो दूराद्दूरमानेन सन् यो नो अश्वेषु वीरेषु यो नो गोश्व चापिषु कव्यादम् निर्णो दामसुयो अग्न्यर्ज नयोपनः अन्येभ्यस्त्वा पुरोषेभ्यो गोभ्योऽश्वेभ्यस्त्वा कव्यादम् दामसयो यस्मिन् देवामृजत यस्मिन्मनुष्यावुत तस्मिन्घृहस्तावामृष्ट्वात्मज्ञयदिवम् गृहः सनिर्धाज्ञाहुतस नामाभ्यपक्रमे अत्रैव देतिहृत्यविद्याख्यसौर्यम् दृश शीर्ष मृद्धन्नडमृद्धमग्नौ सङ्गादुजयत् अथो अव्याम् रामायाम् चे शक्यमोपगर्हणे श्रीशैमलम् जातयत्वा चेर्षक्तिमो मम गृहाणे अव्यामजज्ञाम् मृष्ट्वा शुद्धा भावत यज्ञियाः परम् रत्यानुपरे पन्था यश्च येषयिता लोदे वयानात् लक्षस्वदेशन्मजतेऽमी मे वीराभावो भवन्तु इमे जीवाभिमृतैरावावृत्तभूद्भद्रादेवो जन्म अद्य राजोगामनृतये हसाय सुवीरासो विदधा मा इमम् जीवेभ्यः परिचिन्द धान्यै शाम्यकातपरोमेतम् सकम् जीवन्तः शरदः पुरोजे स्थिरोमुत्यन्द सताम् पर्वतेन आलो हतायज्जलसम् मानाय जष्ठस्था सुजनेमासजोषाः सर्वमायनयतु जीवानाय यथान्य पूर्वम् भवन् यथावर्तभर्यन्ते साकम् यथा न पूर्वमपरोजः इत्येव तदायोम् च कल्पयैष अस्मन्वदे यत संप्रबद्धम् वेदयध्वम् वृतारतासखायः अत्राजहे दय असन् दुरेवानमेवानुत्तरे माभिवाजान् उत्तिष्ठता प्रतरता सखायोमन्वते न देश्यम् रद इयम् अत्राजहे दय असन्न सेवाशिवान् शिवनानुत्तर माभिबाधान् वयेष्वेवेम् वच्च सारभध्वम् शुद्धा भवन्तः पावकाः अतिक्रामन्तोऽता पदानिशतं हिमाः सर्वीरामदेमेव पदभिर्वायुमद्भेरतिक्रामन्तोपरान्फलेभिः त्रिः सप्तगत्कलेन मृत्युम् वृत्योऽहम्पदयोपनेन मृत्योः पदयोपयन्तयेदर्गाह्येयायुप्रदानम् दधानाः आसेना मृत्युम् नोददा सतस्थे च जीवासो विदधा मा वदेम हिमानारेरविधा वा सुपत्नीराञ्जनेन सर्पि सा संस्पृशन्ताम् अनश्रवानमेव सुरत्नारोऽहन् द्वचन यो यो निमग्रे व्याकरोमि हविषाहमेतौ गौ ब्रह्मणा व्या तथाम् विद्रभ्यो अचलाम् कृणोमिति अध्ययेन युशासमिमान् सृजामि यो नाग्नितरोहत् स्वान्तरा विवेशामृतोमत्येष मयि अन्तम् परिगृह्णामि चैवम् मासोऽस्मान् विक्षतमा भयम् तम् अपावृत्यकार्हत्याद्धव्याधाप्रेददक्षिणा प्रियम् पितृभ्य आत्मनेह ब्रह्मभ्यः कृणुता प्रियम् विभागधनमादायः प्रक्षेणाच्यवत्या अग्निः पुत्रस्य ज्येष्ठस्य यः कव्यादनीराहिदः यत्कृशते वस्नेन विन्दते स्वब्रह्मभ्यश्च रसुन्नास्य कव्याच्छेदनीराहिदः अयज्ञयो हतवर्जा भवति दैनेन हविरवे श्रीरीकृष्या गोर्धनाद्यम् कव्यादानुवर्तते महद्ग्रथे प्रवादत्यार्तिम् मत्योनीत्य कव्याद्यानग्निरम् दिकादानुविद्वान् विदावाति लाख्याग्राः संसृज्यन्ते स्त्रियायम् म्रियते पतेः ब्रह्मैम विद्वाने निरादुधत् ल्यप्रंशमानम् च क्रमयञ्च दुष्कृतम् आपो मातुस्माच्छुम्बन्त्वज्ञासुताच्च यत् पाधरादिते चैरावृत्रेः वर्वातस्य वृषभस्यादे पृष्ठेन वा चलन्ति सरितपुराणेः ग्ने अक्रव्यान्यक्रव्यादम् मुदादे भारम्बः इमम् क्रव्यादावीमेषायम् क्रव्यादमम्बगाद् व्याघ्रौ वृत्तानानानन्तम् हरामशिवापारम् अनन्तर्धदेवानाम् परधर्मानुष्याणामत्यर्पार्हपत्य उभयानन्तराश्रिनः जेवानामाय प्रदे रक्तमग्नेयतॄणाोकमपे गच्छन्तु ये मृताः सुगार्हवत्यो विलपन्नरादिमुषामोषांशयसेन्धे ह्यस्मै सर्वानग्नयसहमानः सपत्नानैषामोर्जन्त्रयमस्मासोधेः इममिन्द्रम् मह्निम्बप्रेमन्वार बद्धम् तो निर्वक्षादमद्यात् ेनापहत शरोमापतम् दम् तेन रुद्रस्य परे बाधास्ता अनर्गाहम् प्लवमन्दार बद्धम् तानिर्वृक्षद्वरितादवद्यात् आरोहतौर्नवमेताम् षड्भिरुभिरमादिन्देम अहोरात्रे अन्वेषुभ्रक्षेऽन्यस्तिष्ठन् बदराण सुीराः ्रत्योगेव नः पुरोषगन्धिरधि रे देवेभ्या दृष्ठन्ते पापञ्चे मन्तु सर्वदा क्रव्याद्यानग्निरम् द्विगादश्वा इवानुपपाते झटम् ये श्रद्धाधनकाम्यात् क्रव्यादा समासाते अन्येषाम् कुम्भे पर्यादाधति सर्वदा मुहोरा वर्तते पुनः क्रव्याद्याघज्ञरम् त्रिकादान विद्वान् विकावादे अविः कृष्णाभागेयम् पशूनाम् शीर्षम् क्रव्यादपि चन्द्रम् तो माषाः पृष्टाभागधेयम् दे हव्यमारण्यान्यारम् सजस्व विषेकाञ्जल देभिष्टा जलञ्जम् दण्डानम् तमिन्द्रा यद्धम् कृत्वा यमस्याग्निम् निरादाधौ प्रत्यञ्च भर्कम् प्रत्यर्पयित्वा प्राविद्वान् पन्थाम् विद्या विवेश परामी शामसोम् निदेशदीर्घे सृजामि पुमान्सोधे द् जन्मे हि तत्र प्रियाथेः रावणम् तावग्रे प्रथमम् ाज्ये समानम्भाम् चक्षस्त देवीर्या वितावर्त्यजस्तदीतावाचीनानि अग्निः शरीरम् सर्वते यदे दोधा भक्वान्मे तु नासम्भावातः समस्मिल्लोके समो देवयाने सं स्म समेदैयमाराज्येषु भो पवित्रैरपात्रायथा यद्धत्रे सोऽधेवाम् सम्बभो वा आपस्पुत्रासोऽभिसन्देशर्थमिमम् जीवम् एव सन्न्यासमेत्य साम्भयध्वमृतयमाहुर्यमादनम् भजति वाञ्जनित्रीवाम् पिता पचातियम् च माता रिक्तान्नर्मेषार्चवाचः सबोदनः शतधारः स्वर्गमुभे व्यापनभाजे महित्वा उभे न भाजे उभयाञ्च लोकान् ज्ञेयज्ञानामभिजेताः स्वर्गाः तेषाम् ज्योतिष्मान्मधो माञाग्रे तस्मिन् भुत्रैर्जलसि संश्रयेताम् प्राचेयम् प्राचेयम् प्रतिशमारभेतामेतम् लोकम् श्रद्धा न यत्त्वाम् पक्वम् वरेविष्टमग्नौ तस्य गुप्ता ये दम्पती संश्रयेसाम् दक्षेणाम् दिशामभिनक्षमाणो पर्यावर्तेतामभिपात्रमेतत् तस्मिन् वयमप्यशुभः संविधानः पक्वाय समबोलम् नियच्छात् दिशामियमेद्वरयस्याम् सोमाधिवाम स्याम् सुयेषाम् सुकृतश्च चेथा मथा भक्वान्वे च नासम्भावासः उत्तरम् काष्ठ्रम् रचयात्कलावद्दिशामुदे चे गुणवन्नोग्रम् त्वाङ्गन्दः पुरोषोपभोम विश्वे विश्वान्वे सहसम्भावेम भ्रुवेयम् विरान्नमास्त्वश्चे शिवा भुक्तेभ्यः उतमख्यामस्तु नो देव्यनि देविश्ववालिर्य इव गोपाभिरक्षपक्वन् विदेव पुत्रानभिशंसजस्वनः शिवा नो वाताहवान्तो ह्यमादनम् वचतो देवते यतन्नस्तवा उत सत्यम् च वेत्तु यद्यद्गृष्टश्च गुणयेहत्वात्सरम् विषक्तम् विलाससद यद्वादास्या इन्द्रा वा वृषभोधापयोधाः पवित्रे पवित्रैरपाहम् दुरक्षाः आरोह च मम हि शर्मा यक्षमादम् वा देवोत्रामघन्निका वनस्पतिः स देवैर्ना गण्डक्षपिशाचाधामानः समुच्छ्रायाधे लोकाः वाचन्तेन सप्तमेधान् स्वजवर्य गृह्ण्य एषाम् ज्योतिष्म उदयश्च दर्ष त्रयस्त्रिंशद्देवतास्थान्सा जन्ते सदः स्वर्गमभिनेश लोकम् स्वर्गल्लोकमभिनोनया सिज्जायया सह पुत्रे स्याम गृह्णामि हस्तमनुमेप्रमाणस्ताः राहिन्वाप्मान स्य प्रवादासि वर्गो वानस्पत्यमुद्यातो मातिदेवायन्तम् विश्वव्याचागतवर्ष्वा भविष्यान्सयानिर्लोकमुपायाच्येतम् वर्षवृद्धमुपायच्छतोत्पङ्कुषम् पलावानपादत्वेन यो लोकाः सम्मेका ब्राह्मणेनो एवासो पृथिव्या आन्तरिक्षम् अंसोऽप्यायन्ताम् पुनरायुङ्शोत्मम् पृथग्ोपाणि बहुधा पाशो नामेका रूपो भव शिषम् समृद्ध्या एतान्तजम् लोहिनी तान्नोदः साव पृथिवेङ्का पृथिव्यामावेशयामि तनोः समाने विकृतात एषा यद्युक्तल्लेखितमर्पणेन ते न मा सुब्रह्मणापि तद्वाभामि जनित्येव प्रदेहर्यादि सोऽनु सन्त्वा दधामि पृथिवीम् पृथिव्याम् उगाकुम्भेर्याह्माव्यष्ठा यज्ञायुधैराज्येनातिशक्ता अग्निः पचन् दक्षतुत्वा पुरस्तादिन्द्रा रक्षतु दक्षिणगोमरुत्वान् वरोणस्त्वा ब्रह्माद्धरुण प्रतीत्यागोमः सन्ददाते पोताः पवित्रयेः पवन्द अभ्राद्यवन्तयन्त पृथिवे च लोकान् काजेवलादेवधन्याः प्रतिष्ठाः पात्रासिक्ताः पर्यज्ञरिधायिन्वपृथिवेम् स चन्ते भौम्याः सजन्ते अध्यन्तरिक्षम् शुद्धाः सदेस्ता कुशुम्भम् एवदानः स्वर्गमभिलोकम् नायन्तु उदेव प्रब्ले नृतसंवेदास उत शुक्राश्रुचयश्चामृता सह नम् दम्पादिभ्याम् प्रशिष्टा पशिक्षन् येष्टासुनाथाः सङ्ख्यातास्तोकाप्रशिवेम् सन्ते राणापाणे सम्ये दावोषभिः असञ्ज्ञादाोप्यमाना सुवर्णाः सर्वम् व्यापश्रुजा यश्रु चत्वम् हृद्यासन्त्यपिवल्लम् शब्दार्थेन हस्यन्ति बहुलांश्च बिन्दू न योष एव दृष्ट्वापतिवृत्तेयायैते स्तम् नुलैर्भवता समापः उत्थापयसेदतो बुद्धयेनानद्भिरात्मानमभिसंस्पृशन्ताम् अमासिमात्रे हृदयकञ्यतम्मितास्तम् प्रयच्छ अपर्षम् त्वरयाः रोषमहिम् सन्तपोषधेयदान्तपर्वन् तासाम् त्वामपहिराज्यम् बभोवामन् भेरुधा भवन्तु नवम् बर्हिरादनाय स्त्रेण प्रियम् हृदश्चक्षोषाभस्तु तस्मिन् देवाः सह देवैर्वेशम् त्रिमम् प्राष्टम् क्रतुभिर्निषद्य वनस्पते स्थीर्णमासेतबर्हिलग्नष्टोमे सन्नितो देवताभिः अष्टेव रूपम् सुकृतम् दुधित्येन येहापरिपात्रे तदृश्याम् षष्ट्याम् जलत्सोधिबाधेच्छाश्व पत्वेनाभ्यश्च वाते उपयनम् देवान् पितलश्च पुत्रा एतम् स्वर्गङ्गमयान्तमग्नेः धेयस्वधरुणे पृथिव्याच्योदन्ता देवता स्थ्यावयन्तो तन्तादम् पे जीवन्तो जीवपुत्रामुद्गाया तत्पर्यग्धानात् सर्वान्समागाभिजित्य लोकान्यावन् समदेपस्तान् विगाहेधा मायवानम् च अदर्वेरेकस्मिन्पात्रे अध्युद्धारयिणम् उपस्तृणेः प्रथय पुरस्ताद्भृतेन पात्रामभिकारयेतत् वाश्रेवोस्मिवासोऽपास्तरेवकारो लोकमेतमरोपासतामु स्वर्गः तस्मिन् शयादेशो वर्णो देवायेन देवताभ्यप्रयच्छाल यद्यज्जायापगत्परपरपदर्वाजायेत्पत्विरः सन्तःसृदेशाम् सामान्तस्तु सम्पादयन्तौ सह लोकमेकम् यावन्त अस्याप्रशवेन्तजम् तस्मत्पुत्रापर्येऽसम् बभो वः सर्वाष्ठा उपपात्रेऽस्पयेथान्नाभिन्ना शुशावः समाया वशौर्याधारामधो नाप्रभेनाधेन विश्रामृतस्य नाभायः सर्वास्थावरुन्धे स्वर्ग षष्ठ्याम् सरप्सोऽधिपाभिन्नेऽधिपाभ्येन विच्छादनेश्वराभिदः सन्तुये अस्माभिर्दत्तो निहेदः स्वर्गस्त्रिभिक्ताण् स्वर्गा न रुक्षत अग्ने रक्षस्तपदयद्भिदेवम् कव्यात्पेषा च हमाप्रभाहस्तमायै नवकारुद्भास्पदादित्यायै नवङ्गेरसस्तजन्तान् आदित्येभ्योङ्गेराभ्यो मद्भ्यदम् घृतेन मिश्रम् प्रतिवेदयामि शुद्धहस्तो प्राम् मणस्या निहत्येतम् स्वर्गम् सौकृतावपेयेतम् मुक्तमं काण्डमस्य यस्माल्लोकात् परमेष्ठे समाप आशिम् च सर्प्यघृतवत्समम् धेजभागोऽन्येरसो नोऽत्र सत्याय च तपस देवताभ्यो निधिम् च बधिम् परे दत्मयेतम् मानोद्योतेव घान्मा समित्याम्मा करुणेधीजाया औमाहारो लोकाचनिष्टपुत्रोन्वाराभत् नगिल्मे शमत्रमाधाराश्च नयन्मित्रे सममामानयेत् मनो नम् पात्रम् निहेतन्मयत्पत्तारुम् वक्वः पुनरावेशाति प्रियम् प्रियाणाम् ग्रणवा मतमस्तेयम् यदमे द्विषन्ति धेनुरनड्वान्वयो वय आयदेव पौरोषयपमृत्यम् नो दन्तो समन्यया वितरन्यान्ययवोषधेश्वजश्च सिन्धो न दे यावन्तो देवादिव्या आतपन् देरन्यङ्गादिष्प च लो बुभोव देशाच्च सर्वे भजवोये अन्ये क्षत्रेणात्मानम् परे धापयासो मोतम् वा सो मुखामोदनस्य यदक्षेषु वदा यत्समित्या यद्वावधानम् नित्तकाम्या समानन्दम् त्वमभिसम्वसानो तस्मिन् सर्वम् समालम् साधयासः वर्षम् वा नष्वापे गच्छदेवान् स्वरो धूमम् पर्यत्पादयासि विश्वव्यचो भविष्यान् स्वल्लोकमुपायाख्येतम् पन्मम् स्वर्गोपहुताविचक्रे यथा विद आत्मन्यवर्णा भाजेत्कृष्टाम् मानो यालोहि नीशान्ते अग्नौ जोहोमि आच्यै द्वादिशे एकये धीपतये साय रक्षिप्ता विद्यायेषु मते वेदम्बरे तद्मस्तन्नो गोपायतास्माकीतोः तिष्ठन्नाोऽत्र जलसेनिनेषज्जरामृत्य वैपरेणो ददात् तथा भक्तेन सहजम् भवेम रक्षे नायित्वा दृशैन्द्रायाधीपतये तिरश्चिराजये रक्षित्रे यमायेषो मते एतम्बलेनो गोपायतास्माकमैतोः निष्ठन् नोऽत्र जलसेनिने सरामृत्यवेपरेणो ददात्मथा भक्तेन सह सम्भावेमीच्चैस्तादृशे वरो नायाधीपतये प्रदा गेरक्षित्रे नायेषु स्तन्नो गोपा जाता स्म गामयितोः तिष्ठन्नात्र जलसेरिने सृत्य वैफलेणो ददात्मसभक्त्वेन सह सम्भवेम उदिरेत्येद्वादिशे सोमायाधेपतये स्वजाय रक्षेत्रे सन्न्यायिषो मत्यै एकम्बरे दद्मस्तन्नोः गोपा जाता स्म गामयितोः तिष्ठन्नात्र जलसेनने शजराभृत्य पक्वेन सहसम्भावेम कृपायै द्वादशे विक्ष्णवे दीपतये कल्मा शग्रीवाय नक्षत्रवोषधेभ्यैशो मतेभ्यः एतम्बरे तद्भन्ना गोपायतास्माकमैकोः यष्ठन्नो अत्र दरसेनिने नृत्यवेपरेणो दधा भक्तेन सहसम् भवेम ओध्वाये द्वादिश बृहस्पतये धीपतये स्वित्राचारक्षित्रय वर्षाय सोमते एतम्बरेणश्चन्नो गोपाय ो या तलोचयना मुखोत्सत वशाम् ब्रह्मभ्य याचद्भ्यस्तद्वदावदपत्यवत् प्रजया सविक्रेणेत वचभ्यश्चोपादस्यति या श्रेयेभ्य याचद्भ्यो देवानान् तान्न दच्छति कूटया श्रुषंशेर्यन्ते श्रावणया काटवर्धते बण्डया दह्यन्ते गृहार्काणया तो आधिष्ठानाच्छग्नोन्दोप तथा वशायाः संविद्यम् दुरलब्धाते मदोरस्याधिष्ठानात् लिख्यन्दम् नामा विन्दति मनामनात् संशेर्यन्ते या मुखे नोपजिघ्नति यो स्यात् कर्णा वास्तु लक्ष्म गुरुैमन्यकृते स्वम् यदस्याः कस्मैचिद्भोगाय बालान् कश्चित् प्रवृन्दति पदन किशोराम् रेयन्ध वत्साम् सुखादो गोवृगाः यदस्या गोपादो सत्यालो वर्धान् स्वारे कुमाराम् रेयन्ध यक्ष्माविन्दत्यभानात् ल्पोलम् शरद्दासी समस्याति ततोपालोपञ्जायते तस्मादव्यस्य तेन सह रायमानाभिजायते देवान् सर्ब्राह्मणान्वशा तस्माद्ब्रह्मभ्यो देहैषा तदा हस्मस्य गोपानम् एनाम् वनिमायम् तेषाम् देवकृत वशा ब्रह्म चेयम् तदभ्रुवन्ययेनाम् नियायते यदा ऋषयेभ्यो याचद्ध देवानाङ्गान् दित्साति आश देवेषु पृच्छते च मन्यवे योऽ यस्यात्पा भोगो अन्यामिच्छ तदर्हितः किंस्ते अलत्ता पुरोषै याचिताम् धन दृत्साति यथाशेवर्निहितो ब्राह्मणा मेतदच्छायन्ते यस्मान् चरायत् स्वमेतदच्छायन्ते यद्वशाम् ब्राह्मणाभिन्यस्मिन् जनेया देवास्या निरोधनम् शरदेवार्थैहायरादभिः ज्ञातगता सती वशाम् च विद्यान्ना ल्राह्मणास्तर्हे स्याः भव तस्मेवा सर्वोपाहिक्तम्ये सोमस्यतः कोऽस्यावूथोन् वेदाथोऽस्यास्तनानुत भयेनैवास्मे दुहे दातुम् चेत् च गद्भाषा दुरलब्धै नमाशाय याचिता नास्मेकामा समृध्यन्ते यामदत्वाचीर्षति देवावशामायाजन्मुखम् कृत्वा ब्राह्मणम् तेषाम् सर्वेषामतैरन्येति मानुषः हेरम्बशोनाम् न्येति ब्राह्मणेऽभ्योदवशा देवानाम् निहेतम् भागम् मर्त्यश्चेत्ति प्रियायते यदन्येषतैयाजेयम् ब्राह्मण गोपातिम् वशानाम् देवा ब्रमन्ेवम् ह विदुषावशा एवम् विदुषे दत्त्वा धान्येभ्यो तद्भाषाम् दुर्गा तस्माधिष्ठाने पृथिवी सह देवता देवा वशामायाचन्यस्मिन्नग्ने अन्ये सोमाभ्याम् कामाय मित्राय अवरुणाय च तेभ्यो याजन्ति ब्राह्मणास्तेष्वावश्चादे यावदस्यागोपाकर्णोपाशमयादृज स्वयम् चरेदच्छावद्गोषणाश्च श्रुत्वा गृहे रासेत् यास्यानुजावपश्रुत्या सगोष्वजीचरत् आयुश्च तस्य भोजिम् जयहारश्च निहेणिताः वशाचलम् देवहृता देवानाम् निहेजो विधिः आविष्करणश्वरूपाणि यदास्थामभिघांसति आविरात्मानम् गृणय यदा स्थामजिघांसति अथोह ब्रह्मभ्या मनाः मनसा सङ्कल्प इति तद्देवा ्रह्माणा वशामुपयन्ति याचीतम् स्वथा कालेन पितृभ्या यज्ञेन देवताभ्यः कालेन राजन्या वशाय मातर गच्छति वशा माता राजन्यश्च तथा सम्भो समग्रजः तस्याहुरनर्पणै यद्ब्रह्मभ्यः प्रतीयते यथाज्ञम् प्रहेदमालम्भे सुजाज्ञये एवाः ब्रह्मभ्यो वशामग्नया वृश्चा ते जातते ब्रोडा शावत्सा सुदुघा लोके अस्मामुपातिष्ठति सर्वान् कामान् वशा प्रादुषे दुहे सर्वान् कामान्यवा राज्ये वशा प्रादुषे दुहे प्राद अथाहम् नाराकम् लोकन्ये रुन्धालस्य याचिता रवीय द्धा गोपादये वशा वेहदम् मा मन्यमानो मृत्युपाशयः सुबध्यताम् यो वेहदम् मन्यमानो मा च वपच देवशाम् अव्यस्य पुत्रान् पौत्राम् शया विना देव बृहस्पतिः महदेशा मातविचरम् देवो शकौरपि हरो हरोपादये वशा दादुषे विशन्दुहे यद्दे वक्त्राहरि स्यात् या वशामुदकल् त्रयम् देवा यज्ञामुदेत्य तासाम् विलिप्तिम् भीमामुदाकोरतनारदः ताम् देवामीमाम् सन्तवशेया ारदायास्त्वम् भेच्छा मनुष्यायाः आस्ताः पृच्छामि विद्वाम् सङ्गस्यानाश्ने यादब्राह्मणः मिलित्या ब्रेहस्पदे कस्यानाश्ने यादब्राह्मणो याशंसे न भूत्या नमस्तेऽस्तु नारदा विष्ठुविदुषे वशा नार साम् हेमता माया मदत्त्वापरा भवेत् विनित्येया बृहत्पतेतो श्रोतवशा वशा कस्या नास्ने यादम् ब्राह्मणाय आशंसेतभोद्या त्रीणि वैवा जातानि विलिप्ते श्रोतवशा वशा प्राप्तयच्छेत् ैयाजे युर्या भेवादादुषो गृहे देवावशाम् पर्याकृतन्नः पिताः दे एताभर्रग्भर्भेदम् तस्माद्वैदपरा भवत् उदयनाम् भेदो नादात्मशा इन्द्रेण याकृतः कश्चा त्वम् देवा दश्छन्नहमुक्तारे दे। देवशा या दानायवतम् वि वरे रामिणाः इन्द्रस्य मन्यवे धाल्मावश्यन्ते अचित्या हे गोपाणि रुद्रस्यास्ताम् दे हेम्बलम् त्यजित्या होता ममा जगेव देवान् स ब्राह्मणा लत्वा जिह्मालोकान् निर्वृच्छति समे नष्टा ब्रह्माण वित्तर्ते श्रुता सत्येनावृता श्रिया प्रावृयता विशसापले वृता स्वधयापरे श्रद्धयापर्योढादेक्षया गुप्ता यज्ञप्रतिष्ठिता लोको निधनम् ब्रह्मपदवायम् ब्राह्मणो धेपतेः तामाददानस्य ब्रह्मणवीर्येन तो ब्राह्मणम् स्वियस्य अवक्रामतिसंहृता वीर्या आम् लक्ष्मीः ओजश्च तेजश्च सहश्चबलम् गवाश्चेन्द्रियम् च श्रेश्च धर्मश्च ब्रह्मादक्षत्रम् च राष्ट्रम् च विषश्च विशश्च यशश्च वर्तश्च त्रवेदम् च वायुश्च लोपम् च नामाजकीर्तिश्च प्राणश्च बाणश्चार्थम् च वयश्च रसश्चान्नम् चान्नाद्यम् कर्तम् च सत्यम् चेष्टम् च भूर्तम् च प्रजा च पचवश्च तानि सर्वाण्यपक्रामन्ति ब्रह्मगमे माददानस्य जिनतो ब्राह्मणम् क्षत्रियस्य सैषा भेमा ब्रह्मगव्या आधवे साक्षात्कृत्या पूर्वजमावृता सर्वाण्यस्याम् घोराणि सर्वे च मृत्यवाः सर्वाण्यस्या क्रोराणि सर्वे पुरुषवधाः सा ब्रह्मर्यम् देव्या दीयमानामृत्या पण्ड्मिम् चाद्याति मे निःसर्वधा हि सा ब्रह्मर्यस्य चितिर्हि सा तस्माद्वै ब्राह्मणानाम् दौर्दोरादर्षा विजाभता वज्रोधावन् देवै स्वानरमुद्बीता हेतिः महादेवो महादेव ओपेक्षमाणा सुरमाभिरीक्ष्यमाणा वास्यमालाभिस्फोर्जने मृत्युर्हिम् गृह्ण्वत्यो ओ देवः पुच्छम् पर्यस्यन्ते सर्वज्ञानिः कर्णो वरे वर्जयन्ति राजयक्ष्मो मेहन्ते वे निर्दुश्यमानाशीर्षर्तिर्दुग्धा सेदिरोपतिष्ठन् देमिधो योधः पराः मृष्टा आमुखे विलक्ष्यमाने वितर्हन्यमाना अहवेषानिपदम् इदमो निपादिता अनुगच्छन् ते प्राणानुपादादयने ब्रह्म गवे ुष्यमवधीयमाना विषम् प्रयस्यम् दे दक्मा प्रयस्ता अधम् पच्यमाना दुःस्साध्यम् पक्वा मूलमवहणेवर्याक्रियमाणाक्षिः पर्याकृता असन्द्या क्रुद्धप्ष्यमा नाशिमेधाभिषिता अमत्यरश्यमानानुर्वेदरशिदा अशिता लोकाच्छेणत् ब्रह्म कवे ब्रह्मद्यमस्माच्चामुष्माच्च चा। तस्याहनम् कृत्या मे निराशजलम्बरागवो बध्यम् अश्व अग्निक्रव्यात् भूत्वा ब्रह्म सर्वास्याङ्गापर्वा मूलानि पश्यति चिरत्यस्य पितृबन्धुपराः भावयति मातृबन्धु विवाहान् सर्वानभिक्षापयति ब्रह्मगतिर्ब्रह्मद्यस्य क्षत्रियेणर्दीयमाना अवास्तु मे नमस्ते नम प्रातिकरोद्यपरेणो भावभिक्षीयते एवम् विदुषा ब्राह्मणस्य क्षत्रियो गामा दत्ते क्षेत्रम् वैदस्याधाने वृद्धाः कुर्वतः क्षेत्रम् वैदस्यादहारणम् परे गच्छन्त्रिशे राज्ञाणा पाणिनो राजिकुर्वाणाः पापमैलहम् क्षेत्रम् वैदस्याः सुमृगाः कुर्वत हैलहम् क्षेत्रम् वैदस्य पृच्छन्त्रि यत्तदा ञ प्रत्यक्षापय क्षापय आददागमाङ्गिरति ब्रह्मज्यमुपदासय वैष्णदेवी ह्योच्युतकृत्यापूर्व पोषन् ते समोषन् ते ब्रह्म गामज्राः सुरभाविर्मृत्युर्भूत्वा विधाः वत्सं आदत्सविरमाम् वर्च इष्टम् भोर्चम् आदाय जीतम् जीताय लोके हेमस्मिन्वयच्छसि अग्नेपदवेर्भवब्राह्मणस्याभिषस्य मे निश्च रव्याभवाघादघवेजा भव अग्ने प्रचिरो जे ब्रह्मज्यस्य कृतागासो देवपेयो न राधसाः त्वया प्रमो नमृदितमग्निर्दाह तु दुःस्थितम् वश्च प्रवृश्च संव्रश्चदः प्रदाः सन्दाः ब्रह्मज्यम् देव्यज्ञामोदानुसन्धाः यथायाद्यपसाधनात्मावलोकान् परागताः एवास्थम् देव्यज्ञे ब्रह्मजस्य कृताकाशो देव पीयोराराधताः वज्रेण शतपर्वक्षुलभृष्टिरः प्रस्कन्धान् प्रशिरोजिः सोमान्यस्य सन्धिन्ध्य त्वजापस्य विवेष्टया माम् सान्यस्य शातयस्थावान्यस्य संग्रह अस्थ्येऽन्यस्य मेडय मज्जानामस्या निर्जहि सर्वास्याङ्गामर्वाह निमिश्राधय अग्निलेरम् ग्रव्यात्रे शव्यामोदतामुदोषतु दा वायुरन्तरिक्षान्महतो वा निम्नः सूर्यायेन प्रणोदतान्योषतु दा